ण्डे तृतीयप्रश्नः प्रारम्भः ओ... अग्ने तेजस्वन्देजस्वेयासेजस्वन्द्रह्म ुष्मन्तं मृत्यस्वन्दं मनुष्येषु गुरु दीक्षायै जा मनुष्ठतेजसे होमि ते जोविदसि ते जमाः श्रीमाहन्दे जिशं मान्दे याः जीन्द्रो युष्विन्मो जे क्षत्रस्य ज्योजसे जोम्यो जोविदस्य मामोजासि षन्मा मामोजहासे सूर्यप्रायस्विन् राजस्वे त्वं देवेषु भो या प्राजस्वन्दं मामायुष्वन्दं वर्जस्वन्दं मनुष्येषु गुरुभायास्य प्रायसेजहामिषुवर्विद शिसुवर्णा माषेन्माह गोवरहासिं मा प्रजामयीन्द्र इन्द्रयन् दधातु मयि मेधामयि प्रजामयितुर्घो युर्हिताज्ञप्रस्ता प्रजापदिस्सा मृहस्पदेवा उपघातारमरतप्रजहत्तार इन्द्रनिधानन्दे देवा प्राणभृतप्राणम् वयितसत्त्वे सत्त्वै सर्वमध्वर्यरुभ्य उपाकरप्राणं वयितसत्वित्याहैत देव सर्वमात्मन् दत्तरोपज श्वे देवासो कवाचपृथिविमा तन्मा मायो सेन्मधु मनुष्ये मधुजनिष्ये मधु वक्ष्यामि मधुमदिष्यामि मधुमदेभ्य वाचवत्याश्रोषेण्यान्मनुष्येभ्यस्तम्मा देवानन्दशोभायै विनरानुमदन्तो वा स्वा प्रवृहन्तु गायत्रे नछन्दसाग्त्रास्त्वा प्रवृहन्त त्रैष्टभे नछन्दसेन्द्रस्य स्वा प्रवृहन्तु जागते नछन्दसा विश्वेशान् देवानाम् प्रियं बाध उबे हिमान्दासुते शुक्रशुक्रमा दो नामिवन्दना सुबोधना सुनोतना सुरेशि शुमेशि शुभाशि शुभे शुक्वरीषु शुक्राजते शुक्रशुक्रमाधो नामि शुक्रन्दे शुक्रेण गृह्णाम्यन्नरूपेण सौर्यस्य े सोमाजा यन्नामजागुरु तस्मै ते सोमसो मा यस्वासि त्वन्देव सोमगायत्रे नछन्दसा प्रियं वा मत्रैष्णे नछन्दसेन्द्रस्य खा त्वन्देव स मया गते न छन्दसा आलः पृथिव्याध्यमृतमज प्राणायत्वा इन्द्राग्नि मे वर्त्यः कृणताम् वर्जस्वा बृहस्पतिः मृत्यो मे विश्वे देवामर्त्यो मे सत्त्वमश्विनाे वा ये मनुवोचत् ब्रह्माणि मे रतविश्वानि काव्यामे विश्चक्रणि वा एतद्वापान्नामधेयं वश्यमान्दाशुक्रुक्रमादो नीत्यापामेव नामधेयेन तु वृष्टिमवन्दे शुक्रन्दे शुक्रेण गृह्णामेत्याहैतत्वान्न रोपत्रसूर्यस्य रश्मय वृष्ट्या एव रूपेण सूर्यस्य रश्मिभृद्दिवा वृष्टिञ्च्यावै यस्यास्मिन्मुत्रायिता इति अस्य रोचते बृहदित्याहैत्वा अस्य गुहगौ दृष्टिरूपेण गृहीत्वा सोमाय जुहोति पराभाय तस्याय प्राणयेतृयोगं गृह्णाचार प्राणयेतु परावर इत्याहायरेव प्राणमात्मन्धत्तेणाय्यमभिव्य जमृतम् वैरण्यमायुः प्राणोऽ मृते नैवायुरात्मम् धत्ते शुतमानम् भवति शिरायुःपुरुषस्यतेन्द्रियायुष्येवेन्द्रिये प्रजतिष्ठत्यस्पृशति भेषिजम् वाहापो भेषिजमेव कुरुते आयुरधिप्राणो नाम सवितराधिपत्ये पानम् मेधाश्चक्षुरश्रा तर्णामधातुराधिपत्य ना। आयुर्मेदामसिवर्णो नाम हस्मतेराधिपत्ये प्रियामेदामेपत्ये क्षत्रम् मेधा भौतमसिभ्यन्नामपि तृणामाधिपत्ये पामौषधीनाञ्जग् अर्थस्य त्वाव्योमः अथस्य त्वाविभोमः अथस्य त्वा विधर्म अथस्य त्वा सत्यायत्तस्य त्वा ज्योतिषे या भूतञ्जभव्यञ्जा वेदपृश्नीया वरुन्धे वायुष्प्राणो नामेत्याः प्राणापानामेवावरुन्धे चक्षरधिश्रोतृन्नामेत्याहारिरेवावरुन्धे रूपमसिवर्णानामेत्याः प्रजामेवाव न्धमसिदन्नामेत्याह क्षत्रमेवावरुन्धे भूतमधिभव्यन्नामेत्याहपशो वामोषुनाङ्गः पशोनेवावरुन्ध एतावत्त्वै पुरुषं वरितस्य देवावरुन्ध अर्जस्य त्वाव्यो मन इत्याहेयं वा रथस्य व्योमे मामेवाभिजयश्चत्वाविभो मन इत्याहान्तरिक्षं वा रथस्य विभो मान्तरिक्षमेवाभिजे ऋतस्य त्वाभिधर्मण इत्याह्योर्वा रथस्य विधर्म दिवमेवाभिजे च त्यादिशा तस्य दिश एवाभिजयत्र तस्यत्वाज्योतिष इत्यार्गो वै लोकस्य ज्योतिषवर्गमेव लोकमभिजयच्चेतावन्तो वै देव लोकास्तागेवाभिजय दृश सम्पद्यन्ते दृशाक्षरा विराडन्नम् विराट् देवा वैयुज्यज्ञे नवरुन्ध तदत्परैरवारुन्ध तदत्पराणाम् परत्रैपरे गृह्यन्ते यदेव प्रथमं गृह्णा देवमेव तेन लोकमभिजय जयम्क्षन्ते नयम् तृतीयमेव तेन लोकमभिजय दि देते गृह्यन्त एषान् लोकानामभिजित्यावृत्तरेश्वरौर्वान्तो गृह्यन्तेऽभिजित्यमेमान् लोकान् पुनरिमन्लोकम् ेश्वरपराञ्च गृह्यन्ते तस्मादितः पराञ्च इमे लोका यदुत्तरेश्वरस्तमुदौर्वाञ्च गृह्यन्ते तस्मादमुदौर्वान् च इमे लोकास्तस्मादयादयां न लोकान् मनुष्या उपदेवन्ते ब्रह्मवाचना वदन्ते कस्मात् सत्यादभ्य औषधयः सम्भवन्त औषधयो मनुष्याणामन्नं प्रजापतिं प्रजा अनुप्रजायन्त इति परादन्निति प्रोयाति गृह्णामे भवन्ति यत् प्रजा न प्रजायन्ते देवा सुरानसृजतृत्यं छन्दांसते विश्वं च व्यक्रामन् स्वरान यक्रामत्यज्ञं छन्दासते देवाहमन्यन्तामेव इदमभो भयक्कस्मै दि ते प्रजापदमुपादावन् स्वक्रवेत् प्रजापतिच्छन्दसां वेजमादाय तप्रदास्यामिति छन्दसां वेजमादाय तदेभ्यप्रायच्छत् छन्दागुस्यपाक्रामं छन्दागो सयज्ञस्तुतो देवा अभवन्परा सुराय एवं छन्दसां वीर्यं वेदाश्रामया शश्रौषड्येदाम एव स्य भ्रातुर्यो भवति ब्रह्मवादिना वदन्ति कस्मैकमधर्युप्रोयादेश्रावयारोच्येरेन्द्रो वृत्रमान्नमेत्यन्ता न पावपदमेत्यन्तः सग्नस्थातो वृन्दस्य वा एषा ज्ञस्तामेव तस्य एवम् वेदो वैनमति आयुत्राग्नेशादुषाणा कृतप्रदेकघृतया निरेधितम् भेद्वामथ च रघव्यम् विदेव ृत्या धान्यत्रावैता यत्राविषाणैत्यवृथमवैष्यन्प्रदीत्तम् आचरामितदेतज्ञा ऋणो भवामि विश्वलोपविश्वदापस्यत्वासञ्जहो्यो हृताजेकः समसनादेकः तेन कृ पुनः अभिरक्षतो गृहाणा पुनर्ना नष्टमाकृति पुनर्नो रीमाकृति ेवस्थानसहस्रपोषस्ये शिषे रास्वाज्यानिकौ राजद्वोषकौ समीर्यकौ संवत्सरेणागस्वस्तिम् ग्निर्वा वयमयेषेदं वा एतद्यमस्य आदत्ते वज्रेदञ्जलिनाशत्वर्वैश्वान प्रधाव्य एव ुन्नामकाष्टायां भक्त्वा प्रानगक्षेण त्रिपात्रमुपयन्द्रयो वा उपकृष्टारमुपश्रोतारमनक्षातारं विद्वानय तेसमुष्मल्लोकैष्टा मुष्मिल्लोकैष्ठापोर्तेन गच्छतेऽन्नभसा पुर इत्याहाभसा पुरोग्निमेव तदा हैतन्मे गोपायेति सत्वन्नो न इत्याह भार्यत्वै नभजस्पतिभार्यमेव तदा हैतन्मे गोपायति देवसर्गुस्थानेत्याहो देवसर्गुस्थानः आदित्यमेव तदा हैतन्मे एतञ्जुवानम् प्रयोदधा मिते न क्रीडन्तिश्चरतप्रियेण मानस्याप्तजनुषा सुभागा राजस्पोषेण स विषामदेव नमो महिम्न उत चक्षुषे देवस्रदाम् गृह्णामि अनुमन्यस्व सुविचारिनामजिष्टम् देवानामिदमस्वहव्यम् देवानामेष उपनाहासीदपाङ्गर्भोषधे संयुक्तः सोमस्य तप्सौर्णीतपोषा आविक्षा पितावत्सानाम् त्वाङ्गावो वृतराज्याय त्वा गोहार्गाः अस्मिन् शत्रस्य भूमिश्रियामस्तवसूनि तीर्थेन वा एष वशायुते स्वीकानि न क्रियन्ते एष हत्वेन यजु देश्व क्रियन्ते सूर्यो देवोदिता क्षत्राय वायुः प्रजाभ्यः प्रजापतये ज्यो दुष्मदीञो यस्यास्ते हरितो अङ्गान्यः कृदाय श्रीतान् देवैः समजीगमम् ीन्यौ विमातरम् च पुत्रम् च विगर्भम् च जरायुजा अहिस्तेऽस्तु पालितिसविश्वरो वैन्द्रवमानोऽधीर आनन्दगर्भम् एकपदी त्रिपदी त्रिपदी तिरुष्पदि पञ्चपदी षट्पदि सप्तवत्यष्टापदी भवनानुप्रसदा स्वाहा मयिज्ञौ प्रथिवेदनता प्रियमिन्द्रा बृहस्पतिश्च अयम् राम् परिशुच्यते स महिन्द्रा बृहस्पति चारर्मदाय पेदे तस्मे इन्द्रा बृहस्पति दत्तकोषदग्नम् अश्वावन्तरन्ति दिव्यानमग्भावना वरन्ति निषदान्तः दा जगदस्पतिः सावनत प्रजाया उतरायीषेधाचेदम् विश्वम्भवन याता पुत्रीजमाना याता तस्मावहव्यम् धृतवत् विधेम दात क्षिता अयम् देवस्य धीमेषु सत्यराधसः प्रजाकामाय मेघुषे द्रोणे तस्मै देवामृता संयन्ताम् विश्वे देवासोषाः देवेषु मन्यताम् अह्निष्टहम्यवाह न भवताम् दासेवयः ध्यायाः यस्या उपस्थुर्वन्तरिक्षुमसानो देवी सुखभाषर्म यच्छतु ष्टदेशुवे सुन सुभगागोधना श्रीव्यत्तमसोच्याच्छिद्यमानया ददातु वीरगोदायमुख्यम् राकेशमुदय श्रोयाभित्तदासुदासुश्रेवसोनिर्नाद्य सुमना उपागे सहस्रपाषगो सुभगेरणा श्रीवारियासुपाणिः ो मागौ सुभगान् विध्वनाभ्य यज्ञे सुभगान्वो हविमि सा नो ददातु श्रवणम् विधुनान् तस्यास्ते देवि हविषाम भो देवानामोदस्य पत्ने हव्यामो अस्य हविषश्चिकेतोषेखिरभूरिभामगौरायस्पोषञ्चिकीदृषे दधातु इति तृतीयकाण्डे तृतीयः पश्यः समाप्तः